नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अत्र एकः श्लोकः वर्तते सर्वे च पशवः सन्ति तलवत् भूतले नराः तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः वीरभावं सदा प्राप्य क्रमेण देवता भवेत् सर्वे पशवः सन्ति तलवत् भूतले नराः तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः वीरभावं सदा प्राप्य क्रमेण देवता भवेत् इत्युक्ते यदा अस्माकं जन्म भवति अस्मिन् जगति तदानीं वयं सर्वे अपि पशवः एव स्मः पशवः एव स्मः यतोहि यदा वयं यदा अस्माकं जन्म भवति तदानीं तु अस्माकं व्यवहारः शिशोः व्यवहारः तु तथा एव अस्ति तत्र पशु पशुधर्माणाम् एव पालनं भवति आहारनिद्रा भयम् इति कृत्वा वयं सर्वे पशवः आदौ अनन्तरं किं भवति इति चेत् यदा अस्माकम् अग्रगतिः भवति द्वादशवादनात् न दशवादनात् द्वादशवादनपर्यन्तम् अग्रगतिः भवति तदानीं वयं देवाः भवामः यः पशुः अस्ति आदौ यः पशुः अस्ति सः क्रमेण अग्रे मनुष्यः भवति मनुष्यात् क्रमेण सह देवः भवति यः या या अग्रगतिः अस्ति पशुजीवनात् देवता देवतापर्यन्तं सह मार्गः एव साधनामार्गः सः मार्गः एव साधनामार्गः तर्हि अत्र अन्यः अपि एकः श्लोकः अस्ति जन्मना जायते शूद्रः जन्मना जायते शूद्रः संस्कारात् द्विज उच्यते वेदपाठे भवेत् विप्रः ब्रह्मजानाति ब्राह्मणः ब्रह्मजानाति ब्राह्मणः तर्हि अत्र जन्मना जायते शूद्रः शूद्रः इत्युक्ते अत्र जातिः इति न पशुस्वभावः जन्म यदा जन्म भवति तदानीं तत्र पशुधर्मः पशोः यः धर्मः ये धर्माः भवन्ति ते अस्मासु अपि भवन्ति यदा अस्माकं वैदिकीदीक्षा भवति तदानीं सः सः इदानीं सः जानाति कथं मया तत्र परमपुरुषः इति काचित् सत्ता वर्तते इति यः जानाति तदानीं तस्मिन् तस्यां दिशि सः गच्छति तदानीं तस्मिन् अहं मनुष्यः भवामः अहं मनुष्यः भवामि इति इच्छा आकाङ्क्षा जायते तदानीं सः द्विजः भवति द्विजः इत्युक्ते तत्र द्वितीयः द्वितीय द्वितीयं जन्म यदा इत्युक्ते तत्र इतः अग्रे अहं पशुजीवनं पशुजीवनस्य पालनं न करोमि तदनन्तरं तः सः ज्ञानं तस्य ज्ञानं भवति तत्र यः यद् उचितं शास्त्रम् अस्ति तस्मात् तस्य ज्ञानं भवति आध्यात्मिकज्ञानं भवति तदानीं सः विप्रः भवति तदनन्तरं यदा तस्य तान्त्रिकी दीक्षा भवति इत्युक्ते कथं साधना करणीया इति तादृशदीक्षा दीक्षा भवति तदानीं सः ब्राह्मणः भवति तदानीं सः ब्राह्मणः भवति यतोहि साधनां कृत्वा कृत्वा कृत्वा सः अग्रगतिं प्राप्य सः देवः भवति तर्हि पशुत्वं मानवत्वं देवत्वं तर्हि जन्मना शूद्रः जन्मना सह पशुः सर्वे पशवः सन्ति तलवत् भूतले नराः पशु पशुसमान् यतोहि पशु यतो पशुः स्वभावः अधः स्वभावः इत्युक्ते तत्र केवलम् आहारनिद्रा भयम् मैत्रं तर्हि तलवत् भूतलं तलवद्भूतलं तलवद्भूतले नराः आदौ नराः पशवः सन्ति तर्हि क्रमेण शनैः शनैः सः मानवत्वे सः प्रतिष्ठितः भवति मानवत्वम् इत्युक्ते सः योगनिष्ठजीवनम् इत्यस्य विषये सः यदा जानाति मम अनन्तेक्षण अनन्ते अनन्तेक्षणा वर्तते ईश्वरप्राप्तिः एव मम जीवनस्य लक्ष्यम् इति यः जानाति यः तस्य यस्य अन्तश्चक्षुः उद्घाटितं भवति तदानिम् सः मानवत्वे प्रतिष्ठितः भवति क्रमेण पशुत्वात् मानवत्वपर्यन्तं तदनन्तरं यदा सः आध्यात्मिकजीवने सः प्रतिष्ठां प्राप्नोति अथवा सः प्रतिष्ठितः भवति तदानीं सः देवत्वं प्राप्नोति तदेव तत्र उक्तमस्ति जन्मना जायते शूद्रः संस्कारात् द्विजः उच्यते वेदपाठे भवेत् विप्रः ब्रह्मजानाति इति ब्राह्मणः तर्हि इत्युक्ते यदा यदा अस्माकं जन्म जा, जन्म जायते तदानीं पशुव्यवहारः अस्ति इति उक्तं तर्हि तादृशसंस्कारः अस्माकं पूर्वजन्मात् प्राप्तः स्यात् तर्हि यदा तस्य शिक्षा भवति इत्युक्ते जीवनस्य लक्ष्यं किम् इति शिक्षा भवति तदानीं सः मनुष्यः भवति यदा मनुष्यः भवति सः पशुत्वं त्यजति पशुत्वं त्यक्त्वा मानवत्वं स्वीकरोति तदानीं वयं किं इति चेत् पशुत्वं त्यक्त्वा मानत्वं मानवत्वं स्वीकरोति तदानीं वयं किं सः इदानीं द्विजः अस्ति तस्य द्वितीयवारं जन्म जातं द्वितीयवारं जन्म जातं तस्य इदानीं नूतन नूतननूतनजन्म जातम। तर्हि इदानीं तत्र सह यः द्विजः अस्ति सः यः समीचीनं शास्त्रमस्ति तस्य पठनं करोति सम्यक्तया ज्ञानार्जनं करोति तदानीं तत्र विप्रः इति वदामः अग्रे तदा यदा तस्य तान्त्रिकीशिक्षा लभते यद् यदा सः तान्त्रिकीशिक्षां प्राप्नोति साधनायाः पद्धतिं यदा सः जानाति परमात्मनः अस्तित्वं यदा तस्य हृदि अनुभवः भवति तदानीं ब्रह्मणः साक्षात्कारः यदा भवति तदानीं सः ब्राह्मणः भवति इति कृत्वा तत्र सर्वे पशवः सन्ति इति अत्र उक्तमस्ति तर्हि यदा वयं पशवः भवामः जन्मना यदा वयं पशवः भवामः तदानीम् अस्माकं अस्माकं परमात्मा यः अस्ति सः भवति पशुपतिः सः पशु पशु पशूनां पतिः सः पशुपतिः भवति यतोहि यदा वयं पशुरूपेण भवामः तदानीं यः परमात्मा यः परमात्मा अस्ति सः पशुपतिः भवति इत्युक्ते परमात्मनः एक एकं नाम वर्तते पशुपतिः यदा तत्र मानव मानवाः सुषुप्त सुषुप्त सुसु सुषुप्त अवस्थायां भवन्ति मानवाः सुषुप्त अवस्थायां भवन्ति तदानीं परमात्मा पशुपतिः भवति तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः भवति इत्युक्ते आदौ पशुपतिः यदा अस्माकम् अधमः जीवनं भवति पशुजीवनं भवति तदानीं पशुपतिः परमेश्वरः परमात्मा परमात्मा तु सर्वदा वर्तते परन्तु तस्य नामकरणं पशुपतिः इति अस्ति यदा तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः भवति यदा मनुष्याः मनुष्याः अवगच्छन्ति यद् किं करणीयं किं न करणीयं जीवनं कथं व्यतितव्यं कथं न व्यतितव्यं यदा त ते वीराः भवन्ति ते वीराः भवन्ति यदा ते सङ्घर्षं कर्तुं यदा ते सङ्घर्षं कर्तुं आरभन्ते इत्युक्ते तत्र जीवने अग्रगतिं प्राप्तुं तत्र सङ्घर्षः आवश्यकः इति यदा सङ्घर्षः आवश्यकः आवश्यकमस्ति इति यदा ते जानन्ति तदानीं ते किं भवन्ति इति चेत् ते वीराः भवन्ति ते वीराः भवन्ति यतोहि तेषु वीरभावः जायते वीरभावः जायते इत्युक्ते ते सिद्धाः भवन्ति तत्र ये क्लेशाः सन्ति तेषां सम्मुखीकरणार्थं ते सिद्धाः भवन्ति इति कृत्वा ते वीराः भवन्ति तत्र तन्त्रे वयं किं वदामः इति चेत् वीरभावः तेषु वीरभावः भवति तदानीं परमात्मा यः अस्ति सः भवति वीरेश्वरः यदा मनुष्यः वीराः भवन्ति तर्हि तेषां यः परमात्मा अस्ति सः वीरेश्वरः इदानीं सः पशुपतिः नास्ति सः वीरेश्वरः अस्ति परम परमपुरुषस्य एकं नाम अस्ति वीरेश्वरः इति यदा मनुष्याः वीरभावं प्राप्य तर्हि तस्मिन् एव सम्यक्तया प्रतिष्ठिताः भवन्ति तदानीं तेषु भयं भयं न भवति तदानीं तेषु भयं न भवति ते कदापि ते कदापि पराजिताः न भवन्ति किमर्थं चेत् तेषु तेषु तेषां हृदि परमात्मनः प्रति प्रीतिहि जागरिता अस्ति परमात्मनः प्रति भक्तिभावः जागरितः अस्ति वीरभावः अपि प्रतिष्ठितः अस्ति तदानीं ते किं भवति इति चेत् ते निर्भयः निर्भयं निर्भयं प्राप्नुवन्ति ते निर्भयम् प्राप्नुवन्ति ते कदापि पराजिताः न भवन्ति ते जानन्ति अग्रगतिः कथमस्ति इति ते जानन्ति तदानीं तत्र ते देवाः भवन्ति दिव्यभावं ते प्राप्नुवन्ति क्रमेण पशुजीवनात् मनुष्यजीवनं वीरभावं प्राप्नुवन्ति तदनन्तरम् अत्र दिव्यभावम् अपि प्राप्नुवन्ति यदा यदा दिव्यभावं प्राप्नुवन्ति तदानीं ते वीराः न भवन्ति तदानीं ते देवाः भवन्ति क्रमेण देवता भवेत् क्रमेण देवता भवेत् तदानीं ते मनुष्यशरीरे देवाः भवन्ति पूर्वं ते मनुष्यशरीरे मनुष्याः आसन् प्रथमतया ते मनुष्यशरीरे पशवः आसन् तदनन्तरं मनुष्यशरीरे मनुष्याः आसन् तदनन्तरं मनुष्यशरीरे ते देवाः भवन्ति तदानीं तत्र अयं स्तरः अस्ति दिव्यभावस्तरः तदानीं ते दिव्यभावं प्राप्नुवन्ति तदानीं तेषां जीवनस्य लक्ष्यं किं भवति इति चेत् महादेवः महादेवः तदानीं तेषां जीवनस्य लक्ष्यं वीरेश्वरः नास्ति महादेवः प्रथमस्तरे पशुपतिः द्वितीयस्तरे वीरेश्वरः तृतीयस्तरे महादेवः तर्हि एकः एव परमात्मा कदाचित् पशुपतिः कदाचित् वीरेश्वरः कदाचित् महादेवः तर्हि मनुष्येषु अत्र अस्माकं त्रिविध त्रिविधरूपेण व्यक्तिकरणं भवति वयं चिन्तनं कुर्मः अस्माकं चिन्तनसामर्थ्यम् अस्ति वयं सम्भाषणं कर्तुं शक्नुमः अस्माकं तादृशसामर्थ्यमस्ति तृतीयः अस्ति यद् वयं शरीरेण किमपि कार्यं कर्तुं शक्नुमः इति कृत्वा अस्माकं पार्श्वे तत्र त्रिविधसामर्थ्यं वर्तते एकं तु चिन्तनसामर्थ्यं द्वितीयं तु सम्भाषणं सम्भाषणसामर्थ्यम् अनन्तरं तृतीयं तु शारीरिकरूपेण वयं किमपि कर्तुं शक्नुमः किमपि कार्यं कर्तुं शक्नुमः तर्हि इदानीम् अस्मिन् जगति त्रिस्तरीयजनाः सन्ति यथा मया उक्तं मानवशरीरे पशवः मनुष्यशरीरे पशवः मनुष्यशरीरे मानवाः मनुष्यशरीरे देवाः तर्हि ये ये जनाः पशुजीवनं पालयन्ति ते मनुष्यशरीरे पशवाः सन्ति तेषां व्यवहारः कथं भवति इत्युक्ते ते तेषां सर्वेषां त्रिविध अभि अभि व्यक्तीकरणम् अस्ति इति मया उक्तं खलु एकं तु सम्भाषणं चिन्तनम् अनन्तरं कार्यं शारीरिकरूपेण ये पशवः सन्ति पशुरूपेण व्यवहारं कुर्वन्ति तेषां किं भवति इति चेत् तेषां चिन्तनम् एक एकरीत्या भवति तेषां सम्भाषणम् अन्यरीत्या भवति तेषां कार्यम् इतोपि अन्यरीत्या भवति इत्युक्ते तेषां त्रयाणां एतेषां त्रयाणां मध्ये तत्र समत्वं नास्ति अथवा uh, किं uh, समन्वयः नास्ति अलैन्मेण्ट् नास्ति देर् इस् नो अड्जस्टमेण्ट् अमाङ्ग्स् दीस् त्री एक्स्प्रेशन्स् तदानीं सः पशुः सः किमपि चिन्तयति सः किमपि वदति किमपि अन्यत् एव किमपि करोति तर्हि सः तु वयं ज्ञातुं शक्नुमः सः तु वास्तविकतया पशुः एव अस्ति मानवशरीरे पशुः एव अस्ति अस्माकं समाजे एतादृशजनानां न्यूनता नास्ति एतादृशजनानां न्यूनता नास्ति अस्माकं किं कार्यम् इति चेत् अस्माकं कार्यं वयं स्वयं मनुष्यरूपेण मनुष्य मनुष्याः भवामः तदनन्तरं क्रमेण मनुष्यरूपेण देवाः भवामः न केवलं वयं भवामः परन्तु अन्यान् अपि वयं प्रेरयामः अन्य अन्ये जनाः ये सन्ति तेषामपि प्रेरणं वयं कुर्मः ये यः प्रथमस्तरे प्रथमस्तरे ये जनाः सन्ति ते अधमो अधमः इदानीं द्वितीयस्तरे ये जनाः सन्ति ये वीरभावं वीरस्तरे सन्ति तेषां व्यवहारः कथं भवति इति चेत् तेषां चिन्तनम् एकरीत्या भवति परन्तु तेषां संभाषणं अपि च कार्यं भिन्नरीत्या भवति इत्युक्ते चिन्तनम् एकरीत्या भवति सम्भाषणम् अनन्तरं कार्यं शारीरिकरूपेण कार्यं भिन्नरीत्या भवति इत्युक्ते चिन्तनं चिन्तने अन्यदेव चिन्तयन्ति परन्तु सम्भाषणे किमपि अन्यत् एव वदन्ति कार्यमपि यद् यद् यद् यदि यदि यद, ते वदन्ति तदनुगुणं तेषां कार्यं भवति इत्युक्ते त्रयाणां समन्वयः न भवति त्रयाणाम् अलैन्मेण्ट् न भवति द्वयोः अलैन्मेण्ट् भवति एकस्य अलैन्मेण्ट् न भवति इत्युक्ते तादृशजनाः ये ये सन्ति ते वीरभावं वीरभावं तु प्राप्तवन्तः तेषां तु समाजे आदरः भवति आदरः भवति यतोहि यथा ते वदन्ति तथा ते कुर्वन्ति यथा ते वदन्ति तथा ते कुर्वन्ति परन्तु तेषु अपि दोषः अस्ति कः दोषः इति चेत् चिन्तनं समानं नास्ति यथा ते वदन्ति अपि कार्यं कुर्वन्ति तथा चिन्तनं नास्ति इति कृत्वा तेषाम् अपि दोषः भवति तथापि ते वीराः सन्ति तेषां परमात्मा अस्ति वीरेश्वरः वीरेश्वरः ये मध्यम मध्यमस्तराः जनाः सन्ति अनन्तरम् उत्तमस्तराः अन्तिमस्तरे उत्तमस् उत्तम उत्तम उत्तमजनाः अन्तिमस्तरे ये उत्तमजनाः सन्ति ते तु देवतास्तरं ते प्राप्नुवन्ति ते किं कुर्वन्ति इति चेत् यथा चिन्तयन्ति तथा एव वदन्ति तथा एव कुर्वन्ति इत्युक्ते तेषां चिन्तने वदने अपि च करणे न भेदः अस्ति यद्वदन्ति तदेव कुर्वन्ति तदेव चिन्तयन्ति तर्हि एतादृशसमन्वयः त्रयाणामपि समन्वयः यत्र भवति तादृशमनुष्यः एव उत्तमः मनुष्यः स एव देवः सः एव देवः तर्हि अस्माभिः तादृशम् उत्तमवयं सर्वे अपि उत्तमजनाः भवितुम् अस्माभिः यत्नः करणीयः अस्माभिः देवता देवतास्तरं प्राप्तुम् अस्माभिः करणीयः तर्हि क्रमेण अत्र पशु पशुस्वभावः तदनन्तरं वीरभावः तदनन्तरं दिव्यभावः दिव्यभावः अस्माकं स्वरः कथमस्ति इति वयं जानीमः एतादृश स्वररीत्या अस्माकम् अग्रगतिः कथं भवति इति चेत् यदा तत्र साधनां कुर्मः तदानीं साधना साधनया अस्माकम् अग्रगतिः अवश्यं भवति तर्हि एतत् एतत् कथं प्राप्यते इति चेत् योग योगनिष्ठजीवने अस्माकं दृढता दृढता भवति तदानीमेव अस्माकं दृढसङ्कल्पः भवेत् यत् ये, अत्र यत्किमपि अस्ति तत्र अहं सम्यक्तया अहं प्रयत्नं करोमि सम्यक्तया प्रयत्नं करोमि तर्हि इत्युक्ते अत्रापि वयं इत्युक्ते अस्माकं प्रयत्न प्रयत्नः कथं भवेत् इति चेत् यद्वयं शृण्मः योगनिष्ठजीवनस्य विषये तथा एव वयं व्यवहारं कुर्मः तत् तद्वत् एव वयं चिन्तनं कुर्मः तदानीम् अस्माकं समन्वयः भवति चिन्तने वदने अपि च करणे यदा अस्माकं समन्वयः भवति तदानीं वयं ज्ञातुं शक्नुमः अस्माकम् अग्रगतिः अग्रगतिः जायमाना अस्ति इति ज्ञातुं शक्नुमः इत्युक्ते किमपि शृण्मः अत्र परन्तु गृहे गत्वा किमपि अन्यतेव कुर्मः परन्तु चिन्तने किमपि अन्यतेव कुर्मः चेत् तदानीं तत्र अस्माकं इतोपि प्रयासः करणीयः इति अस्माभिः ज्ञातुं शक्नुमः इति अत्र अत्र सरे च पशवः सन्ति तलवत् भूतले नराः तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः वीरभावं सदा प्राप्य क्रमेण देवता भवेत् इति अस्ति अस्तु अत्र कोऽपि संशयः अस्ति वा अस्तु तर्हि इदानीं किं कुर्मः इति चेत् अस्माकं नूतन नूतनकरपत्रमस्ति अहं कोऽहं किञ्च अहं कोऽहम् इत्युक्ते अत्र तृतीयकरपत्रे अस्माभिः किं दृष्टम् अयं संसारः कः इति दृष्टम् इदं जगत् यस्मिन् मम वास यस्मिन् मम वासः अस्ति यस्मिन् अहं वासं करोमि तादृश तादृशजगत् कीदृशमस्ति अपि च मम जगता सह कः सम्बन्धः इति एतत् सर्वम् अस्माभिः दृष्टं तदर्थम् अस्माभिः सृष्टिचक्रस्य विषये अपि समग्रतया चिन्तितम् आसीत् कुतः अस्माभिः आगतः कुतः अस्माभिः गन्तव्यम् एतत् सर्वम् अस्माभिः दृष्टं तर्हि तत्र मार्गः योगनिष्ठजीवनमिति मार्गः तदपि अस्माभिः दृष्टं तदेव अस्माकं पुरतः अस्ति इदानीम् अत्र अस्माकं पुरतः अत्र चतुर्थं करपत्रमस्ति अहं कः अहं कः एतत् पठित्वा वयम् अवगन्तुं शक्नुमः अस्माकं जीवनस्य लक्ष्यं किम् अहं कः अहम् अहं कुत्र अहं इच्छामि मम अन्तिमलक्ष्यं किम् अस्ति एतत् सर्वं वयं ज्ञातुं शक्नुमः मम जीवनस्य लक्ष्यं किं मम जन्म किमर्थं जातं मम मम परमात्मना सह कः सम्बन्धः किमर्थम् अस्मिन् जगति मम व्यवहारः अस्ति किमर्थं मम व्यवहारः एवम् अस्ति इति एतत् सर्वम् अस्माकम् अस्माकं विषये वयम् अधिकं ज्ञातुं शक्नुमः वयं किं चिन्तयामः सर्वदा अहमेव मम विषये अधिकं जानामि इति वयं चिन्तयामः तत्तु अस्माकं शारीरिकविषये अथवा लौकिकजीवने व्यवहारविषये एव वयमधिकं जानीमः परन्तु वास्तविकतया अहं कः इति कदा ज्ञातुं शक्नुमः इति चेत् यदा वयं साधनाप्रक्रियायां वयं अग्रगतिं प्राप्नुमः तदानीं यदा साधनां कर्तुम् आरभामहे तदानीमेव वयं आ... ज्ञातुं शक्नुमः अहं कः इति तद् तद, तदेव अस्मिन् करपत्रे अस्ति तर्हि इदानीम् एकवारं पठामः तर्हि सरिताभगिनी आरब्धं यच्छति वा नमस्कारः नमस्कारः सृष्टेः सञ्च सञ्चरक्रमे मनुष्याः अन्त्यस्थानं आवहन्ति सगुणब्रह्मणः ब्रह्माण्डशरीरात् प्राप्तैः सञ्चिभिः मनुष्याणां भौतिकशरीरं निर्मितं वर्तते तस्मिन् भौतिकशरीरे भौतिकशरीरे तस्मिन् भौतिकशरीरे चैतन्यं पूर्णतया स्वस्थतया च प्रतिबिम्बितम् अस्ति चैतन्यस्य प्रतिश्य मनुष्य अणुचतन्यं जीवात्मा शरीर च वर्तो अ कृत्वा सह ताभ्याम् भिन्नः अस्ति इति ज्ञायते यदि मनुष्याः जीवात्मनः जीवात्मानः आसन् तर्हि तदा तदा इति ते स्वीकर्तुं न शक्नुवन्ति वैकल्पिकरूपेण च यदि ते केवलं शरीराणि एव आसन। तर्हि ते एतत् मम शरीरम् इति वक्तुं न शक्नुवन्ति अत एक भिन्ना सी मनुष्यु अनिया काचि सत्ता अस्त्म शरीर स्वामी स्वीक सा अं सत्ता आत्मेहो चवामीनी भाषा त अ प्रश्न अस्त मैं सवगत किञ्चित् प्रयत्नं करोमि अत्र प्रयत्नं प्रयत्नं करोति वा न पश्यामः इदानीं षष्टेः अन्तिम अवस्थायां शकुणब्रह्मणः पञ्चभौतिक पञ्चबौद्धिकपदार्थैः मनुष्यानां षट् शरीरं निर्माति तदा मनुष्य मनुष्याणां शरीरे चैतन्यस्य स्पष्टं प्रतिबिम्बम् अस्ति अतः तत्तु अणुचैतन्यम् इति कथ्यते इदानीं च अणुचैतन्यं जीवात्मा इति अपि कथ्यते तत्र मनुष्याः तु आ, जीवात्मा शरीरात् भिन्नः किञ्चित् शक्ता अस्ति इति किञ्चित् मम क्लेशः अस्ति अवगमने किन्तु तत्र मनुष्याः वदन्ति एतत् मम शरीरम् एतत् मम शरीरम् इति ते वदन्ति यदि ते अन्याः न वर्तते तदा एतत् वक्तुं न शक्नुवन्ति अपि च अहं जी, यदि मनुष्याः क्रमेण किञ्चित् क्रमेण आरम्भतः क्रमेण प्रत्येकं वाक्यं स्वीकृत्य क्रमेण गच्छतु तदानीम् अवबोधः जायते आम् आम् भगिनि सृष्टेः सञ्चरक्रमे मनुष्याः अन्तिमस्थानम् आह्वयन्ति यदा षष्टिचक्रः प्रवर्तते तदा अंतिम अवस्थायां मनुष्याः वर्तते तत्र सगुणब्रह्मणः ब्रह्माण्डशरीरात् प्राप्तैः पञ्चभिः मौलिकभूतैः मनुष्याणां भौतिकशरीरं निर्मितं वर्तते तत्र सगुणब्रह्मणः एव समस्तषष्टिकर्ता आसीत् अस्ति सः पञ्चभौतै भौतिकपदार्थैः इत्युक्ते पृथिवी जलवायु अग्नि एते पञ्चपदार्थैः मनुष्याणां शरीरं निर्माति तस्मिन् भौतिकशरीरे चैतन्यं पूर्णतया स्पष्टतया च प्रतिबिम्ब प्रतिबिम्बितम् अस्ति तत्र मनुष्याणां शरीरे चैतन्यं पूर्णतया विकसितम् अस्ति प्रतिबिम्बितम् अस्ति चैतन्यस्य एषा स्पष्टा प्रतीक्षाया च अणुचैतन्यम् अथवा जीवात्मा अस्ति अस्य चैतन्यस्य स्पष्ट यः प्रतिबिम्बं वर्तते स एव अणुचैतन्यम् अथवा जीवात्मा इति कथ्यते यत् पञ्चभौतिकशरीरम् एतां प्रतिच्छायां प्राप्नोति तत् मानवशरीरम् इति कथ्यते एषा पङ्क्ति मम स्पष्टं नास्ति यत् पौञ्च पाञ्चभौतिकशरीरम् एतां प्रतिच्छायां प्राप्नोति तत् मानवशरीरम् इति कथ्यते इत्युक्ते यः प्रतिबिम्बं प्रतिच्छाया प्रतिबिम्बं वर्तते सा एव इति कथ्यते मनुष्यशरीरे मनुष्यशरीरे मनुष्यशरीरं पाञ्चभौतिक पाञ्चभौतिकशरीरं खलु पञ्चभूतैः निर्मिता तादृशशरीरे एव शरीरम् एव तत्र आधारः अस्ति यत्र मनः अपि च जीवात्मा वासं करोति मनः च जीवात्मा च शरीरे वासं करोति इति कृत्वा प पाचभौतिकशरीरम् एतां प्रतिछायां प्राप्तुं प्राप्नोति इति कृत्वा तद् मानवशरीरम् इति वयं वदामः इत्येवं वयं चिन्तयितुं शक्नुमः अतः अथवा वयं चिन्तयितुं शक्नुमः इत्युक्ते भिन्नरीत्या चिन्तनम् इत्युक्ते व्यवहारिकरीत्या चिन्तनं वास्तविकतया तु सर्वस्य आधारः परमात्मा एव परन्तु अत्र अत्र कथं लिखितम् इत अस्ति इति चेत् यदा पञ्चभौतिकशरीरं लभ्यते तदानीं जीवात्मा तस्मिन् वासं करोति तदानीं वयं शरीरम् इति वदामः मानवशरीरम् इति वदामः खलु इत्युक्ते शरीरं जीवात्मा मन सर्वं सम्मिलितं शरीरमिति व्यवहारः अस्ति हा इत्युक्ते ह्यूमन् बाडि दीन्स् इन् इस् ह्यूमन् बाडी रैट् अण्ड् द्यूमन् बाडी द्यूमन् बाडी हेस् दिफ्लेक्शन् आफ् द जीवात्मा बका द ह्यूमन् बाडी आल्सो हेस् द मैण्ड् विच हेस् अफ्लेक्शन् आफ़् द परमात्मा दिफ्लेक्शन् इस् जीवात्मा तत्र व्यवहारे तु वयं मनुष्य इति वदामः मानवशरीर इति वदामः आम् एवं मनुष्यस्य अणुचैतन्यं जीवात्मशरीरं च वर्तते इत्युक्ते मनुष्य भौतिकशरीरम् अपि तत्र जीवात्मा अस्ति तत्र जीवात्मा अपि एकं शरीरम् इति वदामः वा पांच बातिका, पांच बातिका शरीरं न इत्युक्ते यदा पाञ्चभौतिक पाञ्चभौतिक यद् खण्ड अथवा पिण्डम् अस्ति पाञ्चभौतिकपिण्डं पाञ्चभौतिकैः निर्मितं पिण्डं तस्य शरीरमिति नामकरणं मनुष्यशरीरम् इति नामकरणं तस्मिन् तत्र किम् तत्र जीवात्मा अस्ति अनन्तरं शरीरम् अस्ति अत्र वस्तुद्वयम् अस्ति शरीरं तत्र पाञ्चभौतिकैः निर्मितं यद् पिण्डम् अस्ति तत् शरीरमस्ति तत्र जीवात्मा अपि अस्ति तर्हि वस्तु द्वयं वर्तते तत्र एतयोः द्वयोः अपि उपभोक्ता मनुष्यः इति कृत्वा सः ताभ्यां भिन्नः अस्ति इति ज्ञायते अत्र त्रयः तिस्रः सप्ता वर्तते इति उक्तमस्ति एतयोः मनुष्यः भिन्नः जीवात्मा भिन्नः अपि च शरीरं भिन्नः इति उक्तं वा आम, आम् तदेव उक्तम् आम् यदि मनुष्याः जीवात्मनः आसन् तर्हि तर्हि अस्ति तदात्मा मम आत्मा इति ते नुँ. स्वीकर्तुं न शक्नुवन्ति इत्युक्ते मनुष्याः जीवात्मनः इति भिन्नं द्वय आ, त्वे सत् ते स्तः तत्र मनुष्याः वदन्ति अम् अयं मम आत्मा इति ते वदन्ति यदि ते भिन्नाः न सन्ति तर्हि तर्हि एतद् वक्तुं न शक्नुवन्ति वैकल्पिकरूपेण च ते केवलं शरीराणि एव आसन् तर्हि ते एतत् मम शरीरम् इति वक्तुं न शक्नुवन्ति एतत्तु स्पष्टमेव अस्ति वयं सर्वे वदामः एतत् मम शरीरं वयं कदापि न वदामः मम अहं अस्ति अस्मि इति तु कोऽपि न वदति एतत् मम शरीरम् इति एव सर्वे वदन्ति अतः एतयो ते एतयोः भिन्नाः सन्ति इत्युक्ते मनुष्याः आसन अपि च जीवात्मा एक भिन्ना सत्ता अस्ति अपि शरीरं अपि भिन्नं सत्ता अस्ति मनुष्येषु अन्या काचित् सत्ता अस्ति या आत्मशरीरयोः स्वामित्वं कर, स्वीकरोति सा अन्या सत्ता आत्मदेहयोः च स्वामिनी इति भासते तर्हि का एतत् सत्ता इति प्रश्नः अस्ति भवती एव इदानीं हा इदानीं किञ्चित् अवगतं खलु भवत्या आमां इत्युक्ते अत्र सत्तात्रयं दृश्यते एकं तु शरीरमस्ति अन्यसत्ता तु जीवात्मा अस्ति तर्हि मनः अपि अस्ति वस्तुतः तदनन्तरम् इदानीं मम मनः इति व्यवहारः अस्ति खलु मम मनः मम जीवात्मा मम शरीरम् इति व्यवहारः सर्वत्र अस्ति तर्हि मम इति कः इति प्रश्नः याति खलु इत्युक्ते मम इति भिन्ना सत्ता वर्तते मनः यदि अहं जीवात्मा अपि न अस्मि मनः अपि न अस्मि शरीरम् अपि न अस्मि तर्हि अहमिति का सत्ता इति प्रश्नः जायते खलु इति प्रश्नः जायते खलु इत्युक्ते वस्तुद्वयम् अस्ति चेत् इदानीम् अहं वदामि मम पुस्तकम् इति अहं वदामि चेत् पुस्तकं भिन्नम् अहं भिन् अहं भिन्ना खलु पुस्तकं uh भिन्नम् अहम् अहं -huh. भिन्नम् तर्हि एवम् इदानीम् अहं वदामि मम आत्मा इति वयं वदामः चेत् तदानीम् आत्मा जीवात्मा भिन्नः अहम् इति मम इति यद्वयम् अहं वदामि सा सत्ता तु भिन्ना खलु तर्हि इदानीं किञ्चित् अहम् इतोपि वदामि तत्र वस्तुतः सिष्टिचक्रचक्रं वयं पश्यामः चेत् सृष्टिचक्रे प्रति सञ्चरधारा वर्तते यदा तत्र सूक्ष्मात् स्थूलपर्यन्तं गमनं द्वादशवादनात् षड्वादनपर्यन्तं गमनं यदा प्रकृतेः गुणाः पुरुषं गुणान्वितं करोति तदानीं तत्र क्रमेण भूमामनः निर्मितं भवति तत्र तद्वयं जानीमः महत्तत्त्वमहं तत्त्वं इति तत्त्वगुणस्य प्रभावेन पुरुषस्य उपरि मातत्त्वं निर्मितं भवति मातत्त्वस्य उपरि रजोगुणस्य प्रभावेन अहं तत्त्वं निर्मितं भवति अहं तत्त्वस्य उपरि तमोगुणस्य प्रभावेन चित्तं निर्मितं भवति इति कृत्वा आहत्य द्वादशवादनात् त्रिवादनपर्यन्तं भूममनसः निर्माणं भवति तदनन्तरं त्रिवादनात् तमोगुणस्य आधिक्येन क्रमेण पञ्चभूतानां निर्माणं भवति आकाशात् वायुः वायोः अग्निः अग्नेः जलं जलात् पृथ्वी इति अथवा क्षितितत्त्वमिति तर्हि अन्तिम अतः षड्वादने अन्ततो गत्वा स्थूलभूतं बहुस्थूलभूतम् अस्ति क्षितितत्त्वं तत्पश्चात् तत्र प्रतिसञ्चर्धारायाः प्रक्रियायाः आरम्भः भवति षड्वादनात् पुनः द्वादशवादनपर्यन्तं तत्र तु स्थूलात् सूक्ष्मपर्यन्तं गमनं तस्मिन् दिशि तस्यां दिशि तु सत्त्वगुणस्य प्राबल्यं सत्त्वगुणस्य प्राबल्यं तत्र षड्वादने यदा अनुकूलवातावरणमस्ति तदानीं जीवस्य आविर्भावः भवति जीवस्य आविर्भावः भवति तर्हि क्रमेण तत्र सत्त्वगुणस्य प्राधान्यं वर्तते क्रमेण सङ्घर्षेण तत्र क्रमेण अग्रगतिः भवति क्रमेण तत्र मनसः मनसः प्रगतिः अपि भवति तर्हि जीवेषु तत्र क्षितितत्वात् जीवस्य आविर्भावः तादृशजीवेषु अनु अनुमनः अपि भवति जीवात्मा अपि भवति प्रारम्भिकस्तरीयजीवेषु अनुमनः बहु प्रारम्भिकस्तरे एव भवति यदा भवति मनसः वर्धनमपि भवति जीवात्मा तु अस्ति एव इति क्रमेण आहत्य सस्यानि पशवः अन्ततो गत्वा दशवादने मनुष्याणाम् आविर्भावः भवति तर्हि मनुष्येषु मनुष्येषु तादृशमन मनः वर्तते यस्मिन यस्मिन् तादृशसामर्थ्यं वर्तते यत्र परमात्मनः परमपुरुषस्य स्पष्टतया प्रतिबिम्बः प्रतिबिम्बः भवति तादृशमनसि परमात्मनः तादृशसामर्थ्यं वर्तते मनुष्येषु तत्र यतोहि मनु मनुष्यस्य मनः सम्पूर्णतया वर्धितं वर्तते तत्र परमात्मनः स्पष्टतया प्रतिबिम्बः वर्तते तर्हि यथा वयं सर्वदा वयं वदामः यथा तत्र रात्रौ कुत्रचित् जलाशयः अस्ति चेत् तदानीं जलाशये मलिनाः मलिनमलिनपदार्थाः न सन्ति चेत् तदानीं जलाशये चन्द्रस्य प्रतिबिम्बः स्पष्टतया प्रतिबिम्बितः भवति जलाशये परन्तु तत्र मलिनाः सन्ति चेत् स्पष्टतया न प्रतिबिम्बितः चन्द्रः प्रतिबिम्बितः भवति एवम् अस्माकं मनः यदा स्वच्छं भवति तदानीं परमात्मनः प्रतिबिम्बः स्पष्टतया भवति इति तादृशसामर्थ्यम् अस्मासु वर्तते तर्हि तथा ता, एव प्रत्येकं प्रत्येकं जीवस्य यत् मनः वर्तते तस्मिन् परमात्मनः प्रतिबिम्बः वर्तते परन्तु स्पष्टतया प्रतिबिम्बितः न भवति यतोहि तेषां मनः सम्पूर्णतया वर्धितं नास्ति अतः तेषु अनन्तेषण इति इच्छा कदापि न भवति अस्मासु अनन्तेषण इति इच्छा वर्तते अस्मासु किमर्थम् एवम् अस्ति इति चेत् अस्माकं तु परमात्मनः परमपुरुषस्य प्रतिबिम्बः स्पष्टतया अस्ति अस्माकं मन अस्माकं मनसि इति कृत्वा अस्मासु तादृशसामर्थ्यम् अस्ति परमात्मनः आकाङ्क्षा अस्मासु वर्तते परमाश् परमात्मनः प्राप्त्यर्थम् अस्माकम् इच्छा वर्तते एतस्य विषये अस्माभिः सम्पूर्णतया स्पष्टतया चिन्तितमासीत् तर्हि मनुष्य पशूनां तथा नास्ति पशूनां परमात्मनः स्पष्टतया प्रतिबिम्बः अपि नास्ति तेषां केवलं पशुव्यवहारः एव अस्ति आहारनिद्रा वयम् मैसनम् इत्येव तेषां धर्माः सन्ति अतः तेषु परमात्मनः प्राप्त्यर्थम् इच्छापि नास्ति इत्युक्ते मनुष्येषु भेदः कः चेत् मनुष्येषु स्पष्टतया प्रतिबिम्बितः चैतन्यम् अपि अस्ति अपि च अनन्तेषणा अपि वर्तते तर्हि यदा इत्युक्ते यद्यपि अत्र यद्वयमपि अस्ति तथापि अस्मासु पशुव्यवहारात् पशुजीवनात् तादृश आकाङ्क्षा न भवति यदा अस्माकम् ईश्वर ईश्वरकृपया परमात्मनः कृपया अस्माकं अन्तश्चक्षुः उद्घाटितं भवति तदानीं तत्र अनन्तेषणा जागरिता भवति या अनन्तेषणा सर्वदा अस्ति परन्तु सुषुप्तवस्थायाम् अस्ति प्रायेण मनुष्येषु सा अनन्तेषणा जागरिता भवति केवलमनुषेषु एव एतादृशसामर्थ्यमस्ति केवलमनुषेषु अनन्तेषा जागरिता भवति पशुषु तथा नास्ति तर्हि परम परम परमपुरुषस्य परमपुरुषस्य चैतन्यम् अस्मासु स्पष्टतया प्रतिबिम्बितं वर्तते अस्मिन् पाञ्चभौतिकशरीरे यस्मिन् मनः अपि वर्तते मस्तिष्कः अपि वर्तते इति कृत्वा वयम् अस्माकं व्यवहारः कथं भवति मम हस्तः मम पादः मम शरीरम् इति एवं यथा वयं वदामः इति वयं वदामः खलु मम मुखं मम हस्तः मम पादः मम शरीरम् इति अस्माकं व्यवहारः अस्ति एवं वयं एवमपि वयं वदामः मम आत्मा मम जीवात्मा इत्यपि व्यवहारः अस्ति मम जीवात्मा इति व्यवहारः अस्ति मम मनः इति व्यवहारः अस्ति मम शरीरमिति व्यवहारः अस्ति तर्हि इदा इदानीम् अत्र इदानीम् अत्र प्रश्नः अस्ति मम इति यदा अहं वदामि मम तर्हि कः सः कः सः सः तु आत्मा नास्ति सः तु जीवात्मा नास्ति सः तु शरीरं नास्ति नो अहं किमर्थं मम इति वदामि मम इत्युक्ते तत्र स्वा स्वामी अस्ति खलु यदा अहं मम पुस्तकम् इति वदामि चेत् अहं स्वामिनी अस्मि पुस्तकं मम स्वम् अस्ति खलु स्वस्वामीभावः अस्ति अहं स्वामिनी अस्मि पुस्तकं स्वम् एवं यदि अहं मम आत्मा इति वयम् अहं वदामि चेत् तदानीं तत्र जीवात्मा अत्र स्वम् अस्ति स्वामी अस्मि त सः कः सः सा यः जीवात्मनः स्वामित्वं स्वीकरोति यः शरीरस्य स्वामित्वं स्वीकरोति यः मम मम शरीरे यत्किमपि अस्ति तस्य स्वामित्वं स्वीकरोति कः सः अन्ततो गत्वा कः स कः सः स्वामी इति एव प्रश्नः खलु यदा वयं यदा वयं विचारं कुर्मः यदा विचारं कुर्मः तदानीमेव एतादृशप्रश्नः जायते केवलं सामान्यतया व्यवहारं कुर्मः चेत् तदानीं शरीरमेव अहम् इति वयं चिन्तयामः सामान्यतया इत्युक्ते अहम् इत्युक्ते किं मम शरीरम् एतदेव अहम् इति वयं सामान्यतया चिन्तयामः परन्तु अथवा कदाचित् अहं चिन् वयं चिन्तयामः जीवात्मा एव अहं जीवात्मनः मनः मनः जीवात्मनः शरीरम् इति कदाचित् चिन्तयितुं शक्नुमः परन्तु वस्तुतः तथा नास्ति वस्तुतः तु व्यवहारे वयं कथं वदामः मम जीवात्मा इत्येव वयं वदामः मम शरीरं मम हस्तः मम पादः इति व्यवहारं कुर्मः तर्हि मम इति वदामः चेत् तत्र स्वामी कः अस्ति कः हू इस् द ओनर् आफ् आल् आफ़् दिस् इति प्रश्नः जायते विचारेण एतादृशप्रश्नः जायते सामान्यतया न जायते यतोहि सामान्यतया तत्र अस्माकम् अवधानमेव नास्ति सर्वदा अस्माभिः किं क्रियते इति चेत् शरीरे एव अस्माकं व्यवहारः अस्ति शरीरस्य कृते एव किं करणीयं तदेव वयं चिन्तयामः परन्तु किञ्चित् विचारं कुर्मः चेत् वयं ज्ञातुं शक्नुमः शरीरस्य अपि स्वामी कश्चन वर्तते कः सः इति अत्र प्रश्नः इदानीम् अवगतं वा किं सरिता भगिनि आं भगिनि किञ्चित् किञ्चित् okay, okay. एषः प्रश्नः यदि उत्तरं लभ्यते तदा स्पष्टं भवति अस्तु समीचीनम् आं तर्हि इदानीम् अग्रे अग्रिमपरिचयं प्रति गच्छामः तर्हि किं सुचित्राभिनी पठितुमिच्छति वा नमस्कारः अहमे तु शीघ्रमान् केवलम् एकः विचारः एव किं किमर्थं सम्यक् न श्रूयते भगिनि अस्मि तत्र किञ्चित् हेट् नास्ति वा हि एव ध्यानं करोमि एकनिमिषम् अन्यत् श्रोतुं शक्नोति अस्तु प्रयत्नं कुर्मः वदतु किञ्चित् आत्मनिरीक्षणेन ज्ञायते यत् अहम् एषः भावः एकः विचारः एव एषः विचारः चिन्तनस्य परिमाण्यभावः तदैव आगन्तुं शक्नोति यदा शैतन्यस्ति एतेन चैतन्ये अथवा ज्ञानेन एव कश्चन एकं विचारवस्तु इत्युक्ते चिन्तयितुं मध्यमपि कार्यं कर्तुं न शक्नोति अतः अहमिति भावना चैतन्यस्य मानसिकप्रतिक्षेपम् अस्ति अथवा स्पष्टतया वक्तव्यं चैतन्येन अथवा ज्ञानेन अस्तित्वज्ञानं अहम् इति भावस्य विचारः अपि अन्यतः भवति इति वक्तुं शक्यते जीवात्मा एवम् अञ्चौर्ये अथवा अनुपुरुषः अस्ति यथा षगुणब्रह्मणि पुरुषः अस्ति गुणान्वितः अस्ति तथा गीवात्मा षगुणब्रह्मणस्य गोचरे अस्ति इत्यतः प्रकृत्या गुणान्वितः भवति प्रकृतेः सप्तगुणस्य प्रभावेण एव अस्मान् अस्तित्वज्ञानं प्राप्नोति अथवा अहम् इति शिभुः अधुनायाः अस्तित्वं भवति अनेन एव अस्तित्वविचारेण अहमिति भावः निर्मितः भवति अतः व्यक्ते अहम् इति तादात्म्यं केवलम् एकः विचारः एवम् एतत् केवलं जीवात्मनि प्रतिकृते शब्दगुणस्य प्रभावेन निर्मितः विक्षेपः इति अतः अहम् इति भावना जीवात्मा अथवा अनुशोचनीयास्ति मनुष्याणां व्यक्तित्वं वा तेषाम् अहम् इति भावना दीवात्मना भवति एतत् केवलं जीवात्म वस्तुनिश्च विचारः अस्ति तस्य ज्ञानं प्रकृतेः गुणप्रभावेन भवति यथा काष्ठफलकस्य अस्तित्वं वृक्षाश्रितमस्ति तथा मनुष्याणाम् अहम् इति भावना सर्वथा चैतन्याद् भवति यथा वृक्षः इति वक्तुं न शक्यते तथैव अहमिति एषा सप्ता अनुचैतन्यं न भवितुमर्हति अहम् इति एकासप्ता केवलम् अनुचैतन्यम् आहृत्य विचारः अस्ति यस्य निर्माणं प्रकृते प्रभावेन जातमस्ति अत्र पूर्वं प्रश्नः अस्ति एषः सप्ता इति अहम् इति एकचिन्तनं तु सर्वदा वर्तते तत् अहं चिन्तयि एतत् एकः विचारः एकः चिन् एकं चिन्तनं किञ्चित् तस्मिन् विषये चिन्तनं कुर्मः चेत् अहम् अस्मि इति एका भावना सर्वाणि वर्तते सर्वेषु वर्तते एषः विचारः किमर्थं वर्तते इत्युक्ते तत्र चैतन्यस्य प्रभावेण एव भवति पशुनामेष एतादृशविचारः न भवति मनुष्यानाम् एकः विषये अहं पशु इति अहमिति भावः कथम् आगन्तुं शक्नोति इति चिन्तयामः अहमिति एकः विचारः अन्येषु पूर्ण रोपते परन्तु इति कथं रोचते किञ्चित् चैतन्यं वा एतदेव चैतन्यं वा चिन्तयामः निश्चयेन न न तादृशं नास्ति एकं विचारं स्वीकृत्य चिन्तयितुं वा किमपि कार्यं कर्तुं वा शक्नुमः एतेन चैतन्येन अथवा ज्ञानेन एव कश्चन एकं विचारं स्वीकृत्य चिन्तयित्वा तर्हि न शक्नोति यदा चैतन्यः भवति तदा एव ज्ञानस्य अपि शक्यते ज्ञानमपि वर्तते तदा एव एतादृशविचारः भवति एतसां चैतन्यस्य स्पष्टतया कतिमुखः नास्ति तत्र एतादृशविचारः इति भवति अतः अहम् इति भावयामि चैतन्यस्य मानसिकक्षेत्रमस्ति चैतन्यस्य प्रभावेन एतत् मानसिक एकं प्रक्षेत्रं भवति अतः स्पष्ट कर्तव्यं चेत् चैतन्य इति विचारः अपि न भवति अतः तत्र चैतन्यं वा चैतन्यं ज्ञानम् अस्ति शिवरिल एतादृशं विचारः आगच्छति अहम् इति दीवात्मा एव अनुचैतन्यम् अनुपुरुषः जीवात्माने अन्यदेव वदामः चेत् अनुचैतन्यं वा इति वक्तुं शक्नुमः तद् ब्रह्म तगुणब्रह्मणि न श्रूयते भगिनि कदाचित् अहं त्रयाणे अस्मि अतः किञ्चित् क्लेशः अस्ति अन्य इदानीम् इदानीं सम्यक् इदानीं सम्यक्तया श्रूयते वदतु तत्र सगुणब्रह्मणे पुरुषः गुणान्वितः अस्ति पुरुषः इदानीं गुणस्य वन्दने अस्ति गुणत्रयम् इति वयं जानीमः सत्त्वगुणस्य प्रभावेन एव एतादृशः शुद्धभावना अहम् इति जातम् अनेन एव एकः भावः निर्मितः अतः व्यक्तेः एवम् एकः उच्चार एवं एतत् केवलं जीवात्मनि प्रकृतेः सत्त्वगुणस्य प्रभावेन निर्मितं जीवः अणुत् चैतन्यं जीवात्माङ्कृते एव एतादृशविचारः भवति अतः अहम् इति एका भावना जीवात्मा अथवा अनुचैतन्यं नास्ति यदा अहं वदामि तदा सत्यं ता वा तदेव चैतन्यं एतादृशं नास्ति मनुष्यानाम् एतद्भावना वर्तते परन्तु एतद्भावना तु केवलं एकः विचारः अणुचैतन्यस्य तत्र सत्ता वर्तते परन्तु अहम् इति अणुचैतन्य एतत् एका भावना तत् शत्रुगुणस्य प्रभावेन वर्तते गुणप्रभावेन वर्तते यथा एकम् उदाहरणमस्ति कोऽपि काष्ठफलकमस्ति काष्ठफलकं तु वृक्षस्य वृक्षश्रितमस्ति काष्ठः कृतः वर्तते इत्युक्ते वृक्ष वृक्षेषु एव वर्तते खलु अतः परन्तु काष्ठफलकं दृष्ट्वा तद्वयम् एतद् वृ एतद् वृक्ष इति वक्तुं न शक्यते तादृशमेव अहम् इति यदा भावना वर्तते तदपि अनुचैतन्यं वा तद् तादृशं वक्तुं न शक्यते किञ्चित् उपरि गच्छति अहम् इति सा सत् आ अतः एतद्भावना यदस्ति अस्माकम् अहम् इति एतत् एतत् आश्रितमस्ति सस्य आश्रितम् इति आश्रितमस्ति सत्त्वगुणस्य प्रभावेण एतद् जातमस्ति तदेव हा हा हा समीचीनं अत्र अत्र समष्टिरूपेण यथा भूममनः निर्मितं भवति तत्र प्रकृतेः प्रभावः अस्ति तादृशप्रभावः अणुचैतन्ये अपि अस्ति इति प्रतिपादयति अत्र इत्युक्ते अनुचैतन्यं तु अत्र भूमचैतन्यस्य अंशः एव खलु अणुचैतन्यम् एवम् अनुमनः अपि भूममनसः अंशः एव अत्र भूममनसः निर्माणं कथं जातम् इति तथा एव अत्र प्रकृतेः प्रभावेण एव एतदपि निर्मितं स्यात् खलु आत्मा यदा यदा अस्माकम् अनुभवः अस्ति अहम् अस्मि इति यः अनुभवः अस्ति अहमस्मि इति भावः यः भावः अस्ति तादृशभावः कथं तादृशभावः जातः इति चेत् आत्मनि जीवात्मनि यदा प्रकृतेः प्रभावः भवति तदानीम् अहम् अस्मि इति पृथक् अस्तित्वं वयं प्राप्नुमः तादृश अहम् अस्मि इति यः भावः अस्ति सः भावः तु जीवात्मनः भिन्नः एव खलु जीवात्मा भिन्नः अस्ति अहम् अस्मि इति भावः भिन्नः अस्ति अहम् अस्मि इति भावः तु तत्र जीवात्मनः आविर्भूतः अस्ति यतोहि प्रकृतेः प्रभावात् अहमस्मि इति भावः आविर्भूतः अस्ति अतः अहम् अस्मि इति यः भावः स्वतन्त्रतया भवितुं न अर्हति यतोहि यावत्पर्यन्तं चैतन्यं नास्ति चैतन्यस्य उपरि प्रकृतेः प्रभावः तत्त्वगुणस्य प्रभावः न भवति तावत्पर्यन्तम् अहम् अस्मि इति भावः अपि न आयाति अतः चैतन्यम् अपेक्षितमस्ति चैतन्यं चैतन्यम् आधारीकृत्य अहमस्मि इति भावः आयाति चैतन्यं नास्ति चेत् अस्मासु अहम् अस्मि इति भावः न भवति चैतन्यम् अस्ति इति कृत्वा अनु अनुचैतन्यं वर्तते इति कृत्वा तत्र अहमस्मि इति भावः आगतः अस्ति यता यता समष्टिरूपेण यथा द्वादश वादने तत्र पुरुषस्य उपरि प्रकृतेः सत्त्वगुणस्य प्रभावः भवति चेत् तदानीं महत्तत्वम् आयाति समष्टिरूपेण इदानीं व्यष्टिरूपेण इण्डिविजुवल् लेवेल् आल्सो मैक्रोकाज़म् अण्ड् मैक्रोकाज़म् व्यष्टिरूपेण अपि यदा प्रकृतेः प्रभावः भवति तदानीं तत्र अहमस्मि तत्र महत्तत्त्वम् आयाति अहमस्मि इति भावः आयाति तादृशभावः तु तत्र जीवात्म जीवात्मानम् आश्रित्य एव भवति अतः एव तत्र उपमा दत्ता अस्ति यत् यथा काष्ठस्य फलकः अस्ति काष्ठस्य फलकः स्वतन्त्रतया भवितुं नार्हति काष्ठस्य फलकः तु वृक्षस्य अंशः अस्ति खलु वृक्षस्य अंशः अस्ति तर्हि तत्र काष्ठफलकं दृष्ट्वा काष्ठफलके दृष् काष्ठफलकं दृष्ट्वा वयं वृक्षः इति वक्तुं न शक्नुमः एवम् अहं भावं वयं जीवात्मा इति वक्तुं न शक्नुमः अहं भावम् अहं भावः भिन्नः जीवात्मा भिन्नः वृक्षः भिन्नः काष्ठफलकः काष्ठफलकं भिन्नं काष्ठफलकस्य अस्तित्वं जीव वृक्षम् आधारीकृत्य अस्ति वृक्षात् काष्ठपलकस्य अस्तित्वम् आगतम् एवम् अहमस्मि इति भावः अत्र काष्ठफलकस्य समानमस्ति अहमस्मि इति भावः काष्ठफलक काष्ठफलकसदृशः अस्ति अपि च जीवात्मा वृक्षसदृशः अस्ति इति एव तत्र उक्तमस्ति इत्युक्ते यता समष्टिरूपेण परमपुरुषः अस्ति तदनन्तरं मनः आविर् निर्मितम् अस्ति तथैव अत्र अपी, जीवात्मा अस्ति अस्माकं मनः अस्ति मनसि अहम् अस्मि इति भावः अस्ति तदनन्तरं यदा अहं तत्त्वं तत्र अहं करोमि इति भावः भवति अहं कर्ता इति भावः भवति तद तदनन्तरं चित्तं चित्ते यद् अहं तत्त्वं चिन्तयति अथवा कर्तुमिच्छति तद् चित्तं तस्य आकारं गृह्णाति इति एतत् सर्वं वयं जानीमः खलु तादृशव्यवहार एव व्यष्टिरूपेण अपि भवति यता अस्माभिः समष्टिरूपेण चिन्तितं तत्र प्रकृतेः प्रभावात् पुरुषस्य उपरि क्रमेण सत्त्वगुणप्रभावात् रजोगुणप्रभावात् तमोगुणप्रभावात् क्रमेण तत्र महत्तत्त्वमहन्तत्त्वं सित्तं निर्मितं भवति तर्हि एतत् सर्वं तु परमपुरुषस्य एव कार्यात्मकरूपमस्ति यता एका माता यथा वयं सर्वदा वदामः एका माता गृहे माता अस्ति यदा बहिः गच्छति चेत् सा वैद्या अस्ति तस्य स्वस्याः पुत्राणां कृते माता अस्ति बहिः गच्छति चेत् सा अस्ति अपि च सा पत्नी अपि अस्ति इति कृत्वा एका एव सत्ता भिन्नभिन्नकार्यं भिन्नभिन्नकार्यम् एका सत्ता यथा स्वीकरोति तथैव परमपुरुषः एकः एव परन्तु तस्य परमपुरुषस्य भिन्नभिन्नकार्यात्मकं रूपमस्ति यदा परमपुरुष शुद्धपुरुषः गुणान्वितः भवति तदानीम् अहम् अस्मि इति भावः आयाति पुनः इतोपि गुणान्वितः भवति चेत् तदानीम् अहं करोमि इति भावः आयाति तदन तदनन्तरम् इतोपि गुणान्वितः भवति चेत् तदानीं तत्र चित्तं अहं कार्यं यद् कृतं तद् तदाकारेण परिवर्तते तर्हि एतत् सर्वं तु शुद्धपुरुषस्य एव कार्यात्मकरूपमस्ति खलु अतः एतानि सर्वाणि रूपाणि परमपुरुषम् आधारीकृत्य एतानि सन्ति परमपुरुषं विहाय एतानि रूपाणि न भवन्ति खलु एतानि सर्वाणि तु मनसः स्तरः मनसः स्तरः सन्ति मनसः अंशाः सन्ति एतादृश अंशत्रयम् अहं तत्त्वं महत्तत्त्वं इति अंशत्रयं तत्र अस्माकं जीवेषु अपि अंशत्रयं भवति इत्युक्ते प्रारम्भिकस्तरीये स्तरीयजीवेषु अंशत्रयमपि भवति इति वक्तुं न शक्नुमः परन्तु मनुष्येषु तु अंशत्रयम् अपि अवश्यम् अस्ति यदा तत्र क्षितितत्वात् यदा जीवस्य आविर्भावः भवति तदानीं क्रमेण एता एतेषाम् अंशानामपि तत्र आविर्भावः भवति तर्हि मनुष्येषु तु अंशत्रयमपि स्पष्टतया वर्तते यद् यद् यद् क्षितितत्त्वं वर्तते तत्तु यद्यपि स्थूलभूतम् इति भाति परन्तु वस्तुतया तु स्थूलभूतं नास्ति तदपि तु पुरुषात् निर्मितं वर्तते अतः तत्र क्षितितत्त्वम् अपि स्थूलं वर्तते इति वक्तुं न शक्नुमः यतोहि तस्मात् एव जीवः आविर्भूतः खलु यस् यदि तस्मिन् सामर्थ्यं नास्ति यदि सुषुप्तवस्थायां तत्र जीवत्वं नास्ति चेत् कथं तस्मात् जीवत्वम् आविर्भवति अतः यद् किमपि अस्ति अस्मिन् जगति सर्वं तु परमपुरुषात् एव सर्वं निर्मितं वर्तते तत्र एककोषः जीवः वा भवतु अथवा मनुष्यः वा भवतु सर्वेषु मनः वर्तते परन्तु मनसः स्तरः वर्तते प्रारम्भिकसरी जीवेषु मन मनः वर्धितं नास्ति परन्तु मनुष्येषु सम्पूर्णतया वर्धितं वर्तते यदा सङ्घर्षः सङ्घर्षेण अग्रगतिः भवति तदानीं मनुष्येषु इदानीं सामर्थ्यम् अस्ति मनुष्यशरीरं प्राप्तुम् अपि च वर्धितं यः मनः यद् मनः अस्ति तदपि प्राप्तुं मनुष्येषु सामर्थ्यम् अस्ति तर्हि एतत्त्रयमपि मनसः ये अंशाः एतत् त्रयमपि परमपुरुषं पुरुषात् एव एतत्त्रयमपि आगतं प्रकृतेः प्रभावात् तत्तु क्रमेण द्वादशवादनात् त्रिवादनपर्यन्तं भूममनः निर्मितमस्ति तदानिम् तत्र एते त्रयः अंशाः अपि सुषुप्त अवस्थायां भवन्ति यदा पञ्चभूतानां निर्माणं भवति एते एते त्रय अंशाः अपि सन् अपि अस्ति यदा पञ्चभूतानि निर्मितानि भवन्ति तदानीं मनसः अंशाः सुषुप्त अवस्थायां भवन्ति किमर्थं सुषुप्तवस्थायां भवन्ति इति वषुप्तावस्थायां भवति इति वयं वदामः ते एते अंशाः भवन्ति इति वदामः इति चेत् यदि एते न न सन्ति तदानीं किं न श्रूयते वा श्रूयते हा श्रूयते भगिनी यदि एते त्रय अंशाः न सन्ति तर्हि कथं तेषाम् आविर्भावः भवितुमर्हति षड्वादने भूमवनः यः य यद् मनः निर्मितमस्ति तत्तु सुषुप्तावस्थायां भवति यदा पञ्चभूतानि निर्मितानि भवन्ति तदनन्तरं पुनः षड्वादने यदा जीवाः आविर्भूताः भवन्ति तदानीं तत्र अनुमनः आविर्भूतं भवति यदा अनुमनः आविर्भूतं भवति तस्मिन् अहम् इति भावः अपि आविर्भूतः भवति एतत्तु प्रियभगिनी तत्र किञ्चित् पुनः आगच्छतु पुनः आगच्छतु अन्ये श्रोतुं शक्नुवन्ति खलु सरिता भगिनी आं भगिनि अहं श्रोतुं हा तर्हि यद् मनः आसीत् तस्य एव आविर्भावः भवति षड्वादने यदा जीवाः आविर्भूताः भवन्ति अतः अत्र जीवस्तरे तु आत्मा नास्ति जीवात्मा नास्ति चेत् अहमस्मि इति भावः अपि न भवितुमर्हति यथा समष्टिरूपेण अस्ति परमपुरुषः नास्ति चेत् चैतन्यं नास्ति चेत् अहम् अस्मि इति भावः न भवितुमर्हति एवम् अत्र जीवात्मस्तरे अपि जीवात्मा अस्ति इति कृत्वा अहम् अस्मि इति भावः आयाति तत्तु प्रकृतेः अन्ततो गत्वा प्रकृतेः प्रभावः शुद्धपुरुषस्य उपरि भवति तदानीमेव अत्र आंसिकस्तरे अपि एतादृश अनुभवः अस्ति परमात्मनः एव जीवात्मनः जीवात्मा परमात्मनः अंशः अस्ति तर्हि यदा क्षितितत्वे सामर्थ्यमस्ति पृथक्करण करणस्य सा सामर्थ्यमस्ति तदानीं पृथक्करणं भवति तदानीं जीवात्मा पृथक्रूपेण आविर्भवति एवम् अनुमनः अपि आविर्भव आविर्भवति परमात्मनः एव जीवात्मा आग्छति पर अहम अस्मी भाव अभी आया ताराशा कह अस्मा अस्मा यहाँ अस्त अहम इति भाव सह भाव जीवात्मा आधारी अस् प्रकृते प्रभावित जीवात्म जीवात्मा आधारी अहमस्व अहमस्थ अस्लु सव आगे चेहर जीवात्मानम् आधारीकृत्य प्रकृतेः प्रभावात् सः भावः आगतः सः भावः भिन्नः अस्ति जीवात्मनः भिन्नः जीवात्मा भिन्नः अहम् अस्मि इति भावः भिन्नः तर्हि अस्य विषये इतोपि अग्रे पश्यामः अत्र कोपि संशयः अस्ति वा अत्र किं तर्हि तत्र अहमस्मि इति भावः तु शत्रुगुणस्य प्रभावेण एव खलु एवं वा आम् आमां शत्रुगुणस्य प्रभावेनैव शत्रुगुणस्य प्रभाव यदा जीवात्मास्कारः भवति तत्तु गुणा गुणरहितः भवति किं किं यदा जीवात्मास्कारः अस्ति तत्तु अस्ति खलु न जीव आत्मा गुणेन गुणेन बद्धः इति कृत्वा तत्र अहमस्मि इति भावः भवति अस्तु गुणेन बद्ध्वा अतः अस्मि गुणेन गुणविहितः इत्युक्ते जीवात्मा एवं वा जीवात्मा तु जीवात्मा तु परमात्मनः अंशः अस्ति अतः गुणरहितः एव अस्ति गुणगुणेन गुणसहितः इति नास्ति यथा सगुणब्रह्मण ब्रह्मणि प्रकृतेः प्रभावात् मनः निर्मितं भवति एवम् अत्रापि तत्र प्रकृतेः प्रभावात् एव अहमस्मि इति भावः अस्ति यदि प्रकृतेः प्रभावः नास्ति तर्हि अहमस्मि इति भावः अपि न आयाति खलु इत्युक्ते जीवात्मा बन्धने अस्ति बन्धने अस्ति यावत्पर्यन्तं पृथक् अस्तित्वम् इति चिन्तयति तावत्पर्यन्तं बन्धने अस्ति यदा पृथक् अस्तित्वं नास्ति इति अस्माकम् अनुभवः भवति तदानीं जीवात्मा बद्धः नास्ति सः मुक्तः भवति अवगतं वा भगिनी अवगतं वा आमाम् इत्युपि एका एव सत्ते यथा समष्टिरूपेण परमपुरुषः एकः एव सत् एका एव सत्ता वर्तते एकः एक एकमेव वस्तु वर्तते परन्तु तस्य सगुणब्रह्म निर्गुणब्रह्म इति अवस्थाद्वयं तथैव जीवात्मा अपि तत्र वस्तुतः जीवात्मा परम परमपुरुषस्य निर्गुणपुरुषस्य अंशः अस्ति परन्तु यदा प्रकृतेः प्रभावात अहं बद्धः इति अनुभवं करोति तदानीं तत्र मनः मनः आयाति अहमस्मि इति भावः अपि आयाति तदानीं सः बद्धः भवति बन्धने भवति यथा परमात्म परमपुरुषस्य स्तरे यथा आसीत् तथैव अत्रापि परन्तु भेदः कः इति चेत् सगुणब्रह्म तु बद्धः नास्ति बद्धं नास्ति सगुणब्रह्म तु सः तु मुक्तपुरुषः एव परन्तु जीवात्मस्तरे अत्र वयं सर्वे बद्धाः वयं बद्धाः यावत्पर्यन्तम् पृथक् अस्तित्वम् इति वयं मन्यामहे तावत्पर्यन्तं वयं बद्धाः यदा अत्र साधनां कृत्वा वयम् अग्रगतिं प्राप्नुमः तदानीं तत्र मनः परपुरुष परमपुरुषे विलीनं भवति मनः तदानीं तत्र वयं मुक्ताः भवामः तावत्पर्यन्तं वयं बद्धाः ओके प्रिया भगिनी अग्रे पठितुमिच्छति वा भवती श्रोतुं शक्नोति प्रिया भगिनी क्षम्यतां <gumma> इदानीं श्रूयते वा मम ध्वनिः श्रूयते श्रूयते अहं बहिः गत्वा पुनः आगच्छामि अनुचैतन्ये प्रकृतेः सत्त्वगुणस्य प्रभावेन बुद्धितत्वं जायते इति पूर्वं दर्शितम् अनेन अहम् इति भावः अपि आयाति अनुचैतन्यस्य अस्तित्वज्ञानं च भवति अतः एतत् अहम् इति व्यक्तिगतसत्ता अनुचैतन्यं न भवति बुद्धितत्वम् अस्ति यत् मनसः भागमात्रं वर्तते सर्वत्र बुद्धित्तत्र स्थाने लेखने नो चेत् आमां सर्वत्र लेखनीयं महत्तत्त्वम् इति लेखनीयं मया न परिष्कृतं अस्तु सो अनुचैतन्ये तत्र प्रकृतेः सत्त्वगुणस्य प्रभावेण एव महत्तत्वं जायते महत्तत्वं महत्तत्वमपि प्रकृतेः पूर्वं वयं दृष्टवन्तः प्रकृतेः प्रभावेण एव प्रकृतस्य सत्त्वगुणस्य प्रभावेण एव महत् अनु अनुतत्त्वम् अनुतत्त्वं न महत्त्वं महत्त्वं आयाति जायते इति आयाति इति तेन एव अहम् इति भावः अपि आगच्छति अपि च अहम् अस्मि इति ज्ञानम् अपि अनुचैतन्यस्य ज्ञानम् अपि वर्तते अतः एव अहम् इति व्यक्तिगतसत्ता व्यक्तिगतसत्ता इत्युक्ते इण्डिविजुवल् व्यक्तिगतसत्ता अनुचैतन्यं न भवति अपितु तु तत् महत्तत्वम् अस्ति यत् मनसः भागमात्रं वर्तते ओके सो अतः अहम् इति अहम् इति किम वयं वदामः तत् केवलं एकपृथक् पृथक् सत्ता नास्ति व्यक्तिगतसत्ता नास्ति तत् पृथक् अनुचैतन्यं न अस्ति किन्तु तत्तु महत्तत्वम् एव अस्ति तत्र मनः तस्य एकः भावः भागवात्र एकः भागः एव अस्ति अतः तत् पृथक् नास्ति किन्तु महत्तत्त्वम् एव आम् इत्युक्ते अत्र समष्टिरूपेण यद् उक्तं तदेव इदानीं व्यष्टिरूपेण वयं पश्यामः खलु अत्र इत्युक्ते तत्र अहमस्मि इति भावः एव जीवात्मा इति नास्ति जीवात्मा भिन्नः अहम् अस्मि इति भावः महत्तत्त्वं भिन्नः महत्तत्त्वं तु मनसः अंशः अस्ति यथा शुद्धपुरुषे निर्गुणावस्थायां निर्गुणावस्थायां तु अहमस्मि इति भावः नास्ति अहमस्मि इति भावः कदा आयाति यदा शुद्धपुरुषः गुणान्वितः भवति प्रकृतेः सत्त्वगुणस्य प्रभावः भवति पुरुषस्य उपरि तदानीमेव अहमस्मि इति भावः आयाति खलु तत्र सगुणब्रह्मणः भूममनः निर्माणं जायते मनसः निर्माणं जायते तर्हि यदा शुद्धपुरुषः गुणान्वितः भवति तदानीम् अहम् अस्मि इति भावः आयाति सः भावः तु मनसः अंशः एव सः भावः चैतन्यं नास्ति सः भावः जीवात्मा नास्ति जीवात्मनः निर्मितः सः भागः जीवात्मनः निर्मितः सः बा भागः इति अत्र स्पष्टतया अवगन्तव्यं मनः मनः भिन्नः जीवात्मा भिन्नः महत्तत्त्वं भिन्नं जीवात्मा भिन्नम् जीवात्मा भिन्नः इति यता यथा समष्टिरूपेण अस्माभिः चर्चितं तदेव व्यष्टिरूपेण अपि अत्र साङ्कर्यं न कर्तव्यम् अस्तु तर्हि एतावता कोऽपि प्रश्नः अस्ति वा अवगतं वा अस्तु तर्हि इतः अग्रे अग्रे सर्तुं शक्नुमः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः नमस्कारः भगिनी धन्यवादः नमस्कारः